नारदपुराणं पूर्वार्थम् अध्यायं सेवेण्टि टु सनत्कुमार उवाच प्रणवो हृदयं विष्णुर्नेन्दसुरपतिस्तथा महाबलाय स्वाहान्तो मन्द्रो वसुधराक्षरः मुनिरिन्दुर्विराटन्दो देवता दधिवामनः तारोबीजं तथा शक्तिर्वह्निजाया प्रकीर्तिता चन्द्राक्षिरामबाणेषु नेत्रसङ्ख्यैर्मनूद्भवैः वर्णैः षडङ्गं कृत्वा च मूर्ध्नि भाले च नेत्रयोः कर्णयोर्घ्राणयोरोष्टकालु कण्ठभुजेषु च पृष्टे हृद्युदरे नाभौ गुह्ये चोरुस्थले पुनः जानद्वयं जङ्खयोश्च पादयोर्विन्यस्येत्क्रमाद् अष्टादशैव मन्त्रोद्धास्ततो देवं विचिन्तयेत् मुक्ता गौरं रत्नभूषं चन्द्रस्थं भृङ्गसन्निभैः विलसद्वक्त्रं कुम्भं शुद्धाम्बुपूरितं दभ्यन्नपूर्णचषकं दोर्भ्यां सन्त ददं भजेद लक्षत्रयं जपेन्मन्त्रं तद् दशांशं कृतप्लुतैः पायसान्नैः प्रजुहुयाध्यन्येन यथाविधि चन्द्रान्ते कल्पिते पीठे पूर्वोक्तं पूजयेक्ष तं सङ्कल्पमूर्तिमूलेन सम्पूज्य जिधानदः केसरेषु षडङ्गानि सम्पूज्य दिग्दलेषु च वासुदेवं सङ्कर्षणं प्रद्युम्नमनिरुद्धकं कोणपत्रेषु शान्तिं च श्रियं सरस्वतीं रतिं ध्वजं च वैनतेयं च कौस्तुभं वनमालिकं शङ्खं चक्रं गदां शार्ङ्गं दलेष्वष्ठसु पूजयेत् दलाग्रेषु केशवादीं दिक्पालां तदनन्तरम् तदस्त्राणि निज सम्पूज्य गजानष्टौ समर्चयेत् ऐरावधपुण्डरीको वामनकुमुदोञ्जनः पुष्पदन्तः सार्वभौमसुप्रतीकश्च दिग्गजाः करिण्योभ्रमुकपिलोपिङ्गलानुपमाक्रमाद चाङ्गनाह्यञ्जनावदी एवमाराधितो मन्त्री दद्यादिष्ठानि मन्त्रिणे श्रीकामप्पायसाज्येन सहस्रं जुहुयात्सुधीः मकदीं श्रियमाप्नोदि ध्यानाप्तिर्धान्यहोमदः शतपुष्पाः समुद्धैश्च बीजहुत्वा सहस्रतः महाभयं नाशयेद्धिनात्रकार्याविचारणा दध्यो दा दनेन ना शुद्धेन कृत्वा मुच्येदुर्गदेहे ध्यात्वा त्रैविक्रमं रूपं जपेन जपेन्मन्त्रं समाहितः कारागृहाद्भवन्मुक्तो बद्धो मन्त्रप्रभावदः भित्तौ सम्पाद्य देवेशं फलके वा प्रपूजयेद नित्यं सुगन्धकुसुमैर्महतीं श्रियमाप्नुयाद कुत्वार क्रतोत्फलर्मं त्रीवशयेत्सकलं जगद अन्नाज्यैर्जुहूया नित्यमष्टाविंशतिसङ्ख्यया सिताज्यान्नं च विधिवत् प्राप्नुयादन्नमक्षयम् अपौ पैषड्रसोपेतैर् कुने द्वसुसहस्रकम् अलक्ष्मीं च पराभूयमकदीं श्रियमाप्नुयाद जुहूयादयुदं मं त्री दध्यन्नं च सिदान्विधम् यत्र यत्र वसेत्सोऽपित्तत्रान्न गिरिमाप्नुयाद पद्माक्षरैर्युदं बिल्वां ति कस्तो महालक्ष्मीं स लभदे तत्र तत्र न संशयः जुहुयापायसैर्लक्ष्यं वाचस्पदिसमो भवेद। लक्षं जप्त्वा तद् दशांशं पुत्रजीवफलैर्हुनाद् तत्काष्ठैरेधिदेवाह्नौ श्रेष्ठं पुत्रमवाप्नुयाद ससाध्यतारं विलसत् कर्णिकं च सुवर्णकैः विलसत्केसरं मन्त्राक्षर द्वम् द्वाष्टपत्रकम् शश युक्मार्णां त्यपत्रम् यन्त्रं सम्पत्प्रतं नृणाम् त्रिविक्रमं ध्यात्वा प्रसूनै रक्तवर्णकैः जुहुयादयुधं मन्त्री सर्वत्र विजयी भवेद ध्याये चन्द्रासनगदं पद्मानामयुधं हुनेदं लभेदखण्डकम्राज्यं सर्वलक्षणसंयुधम् कृत्वा लवङ्गैर्मध्वाकृतैरभा मार्गदलैस्तु वा अयुधं साध्यनामाढ्यं स जायदे जायते ध्रुवम् अष्टोत्तरशतं भूत्वा ह्यपा मार्गदलै शुभैः तावजत्वा जः सप्ताहान् महारोगा प्रमुच्यते उहिरत्पदमा भाष्य प्रणवो ही यशब्ददः सर्ववागीश्वरेत्यन्ते प्रवदेदीश्वरेत्यथा सर्ववेदमया चिन्त्य पदान्ते सर्वमीरयेद बोधयद्वितवान्तोऽयं मन्त्रस्तरादिरीरितः ऋषिर्ब्रह्मस्य देवदास्याधयग्रीवो वा ऐश्वर्यप्रदो विभुः तारेण पादैर्मन्त्रस्य पञ्चाङ्गानि प्रकल्पयेत् तुषाराद्रिसमचायं तुलसीदामभूषितं तुरङ्गवदनं वन्दे तुङ्गसारस्वतपदं द्यात्वैवं प्रजपेन्मन्त्रमयुधं तद्दशांशदः मध्व क्रैपयसैर्हुत्वा विमलादिसमन्विदे पूजये पीठे मूर्तिं सङ्कल्प्य मूलधः कर्णिकायां चतुर्दिक्षु यचेत् पूर्वादिदक्रमाद सनन्तनं च सनकं श्रियं च पृथिवीं तथा तद्बह्यदिक्षु वेदाश्च षट्कोणेषु ततोर्चयेद् निरुक्तं ज्योतिषं पश्चाद्यजेद्व्याकरणं ततः कल्पं शिक्षां च छन्दांसि वेदाङ्गानि त्वीमानि वै तदोष्टदलमूले तु दलमध्ये प्रपूजयेद् दलाग्रेश्यर्चयेत् पश्चात् साधकश्चाष्टभैरवान् सिताङ्गं रुरुं चैव भीषणं रक्तकनेत्रकं बडुकं कालदमनं दन्धुरं विकटं तथा तद्बहिषोडश दलेष्वतारान् हरेर्दश शङ्घं चक्रं गदां पद्मं नन्दकं सार्गमेव च तद्बहिर्भूगृहे चक्रमुखान् दश दिगीश्वरान् वज्राद्यां तत् बहिश्चेष्ट्वा द्वारेषु च तथ क्रमाद् महागणपतिं दुर्गां क्षेत्रे शम्बुकं तथा समस्तप्रकणाद्याश्च योगिन्यस्तर्भवेत् तत् बहिः सप्त नद्यश्च तत् ग्रहान्नव तद्बाह्ये पर्वतानष्टौ नक्षत्राणि च तद्बहिः एवं पञ्च दशावृत्या सम्पूज्य तुरगाननं वागीश्वरसमवाजिधनैर्धनपतिर्भवेत् एवं सिद्धे मनौ मं प्रीप्रयोगान् कर्तुमर्हति अष्टोत्तरसहस्रं तु शुद्धं वाय्यभिमन्त्रितम् ीजेनमासमात्रं ये धीमाञ्जितेन्द्रियः जन्ममुकोऽपि स नरो वाक्सिद्धिं लभते ध्रुवं भुगुस्तमर्धीराबिन्दुमद्बीजमीरिदं चन्द्रसूर्योपरागेतुपात्रे रुग्मयेक्षिभेद दुग्धं वचान्ददो मन्त्री कण्ठ मात्रो मात्रोदगे स्थितः स्पर्शाद्विमोक्षभज्यन्तं प्रजापेन्मन्त्रमादराद पिबेत्तत्सर्वमचिरात्तस्य सारस्वतं भवेद् ज्योतिष्मती ददा दिनेश्वे दिनेष्वेकैकवर्धितम् अष्टोत्तरशतं यावद्भक्ष योदभिमन्त्रितं सरस्वत्यवदारोऽसौ सत्यं स्याद्भुभिमानवः किं बहु कृतेन विप्रेन्द्रमनोरस्य प्रसादः सर्ववेदागमादीनां व्याख्यादा ज्ञानवान् भवेद इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने सनत्कुमारविभागे हृदि अपादे हयग्रीवोपासनानिरूपणं नाम द्विसप्ततितमोऽध्यायः ओम्